हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे ध्याखण्डे पञ्चत्रिंशे स्वर्ग सुमन्त्रेण प्रबोधिताय भर्सिताय चक्रयाक्षोभ ततो निधूयत शिरो निस्य चकृ पाणिपाणोष्य दन्तान् कटकटाय लोचने कोपसंरक्ते पूर्वोचितं जेत् कोपाभिभूत सहसन्तापम् अशुभं गतः मनस्मीकोदशरथस्य च कम्पयन्निव कैकय्या कै हृद वा क्षरैषितै वाक्यवज्रै अनुपमयि निर्भिन्दन्निव च शुभै कै कैकय्या सर्वमर्माणि सुमंत्र प्रत्यषत यम कि विद्य पतिघ्नि मंदे क्लघ्निम चात येन्द्र जय्यम दुष्प्रक्य महोदधि क्षोभ्यम् सन्तापैसि कर्मभिः मावमंसा दशरथम् भक्तारम् वरदम्पतिम् भक्तुरिच्छा हि नारीणाम् पुत्रकोट्या विशिष्यते यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये इक्ष्वा कोकुलनाथेऽस्मिन् राजा भवतु ते पुत्र भर्तशासु मेदिनीम् वयं तत्र गमिष्यामो यत्र रामो गमिष्यति न च ते विषये कश्चित् ब्राह्मणो वस्तुमर्हति सदृशं तं न मर्यादम् त्यक्ता या बन्धवे सर्वे ब्राह्मणै साधुवि सदा कात्री राज्यलाभेन तव देवी भविष्यति तादृशं मर्यादम् कर्म कर्तुं चिकित्ससि आश्चर्यम् इव पश्यामि यस्यास्य वृत्त ईदृशम् आचरन्त्या न वितृता सद्यो भवति मेदिनी महाब्रह्म शिरसृष्टाव ज्वलन्तो भीमदर्शनः धिग्वाग्दण्डा सहिंसन्ति रामप्रभ्राजने स्थिताम् आम्रम् छित्त्वाय कुठारेण निम्बम् परिचरेतु कः यश्चैनम् पयसा सिञ्च नैवास्य मधुरो भवेत् अभिजात्यं हिते मन्ये यथा मातुः तथैव च नयि निम्बास्त्रविम् लोके निगादितम् वचे तव मातुरसद्ग्राहम् विद्म पूर्वम् यथा श्रुतं पितुः सैवी ददु वारम् अनुत्तमम् सर्वभूतर्तं तस्मात् सञ्जन्ये तेन तिर्य गतानां च भूतानाम् विदितम् वचः स्वतो जृम्भस्य धूरिवर्चतः पितु ते विदितो भावे तत्र बहुधा हसत् तत्र ते जनैः क्रुद्ध मृत्युपाशमभ्यति हासम् ते नृपते सोम्य जिज्ञासामितिजाब्रवीत् नृपचो वाच ताम् देवीम् हासम् क्षमतामि ततो मे मननम् सद्यो भविष्यति न संशयै माता ते पितरं देवि पुनः केकेयमब्रवीत् शंस्तीव जीववा वा न मां तं प्रतिष्ठति प्रेया च तथोत्त केकेयपृथिवी पतिः तस्मै तं वरदायार्थं कथयामास तत्ततः ततश्च वरदसाधु प्रत्यषत म्वसताशंसी संी पते सुरुताव सनसो नृप् मातरम ते नशु विजहरे कुबेर वै तथा राजथिद्रह इमु पुरुषे पापदर्शिनी सत्यश्चात्रैः प्रवादोऽयम् लौकिक प्रतिभाति पितृम् समनुजायन्ते नरा मातरं मातरं मङ्गनाय नैवम् भवे गृहाणेदम् यदाह वसुधाधिपः भर्तृ इच्छाम् उवास्वेः जनस्यास्य गतिर्भवे मात प्रोत्साहता पापी देवराज सभम भर्ता लोक भर्ता अत धर्म नही मिथ्या प्रति क्य श्रीम दथो राजी राजीव लोचन ज्येष्ठोद कर्मण्य स्वधर्म से रक्षिताय जीवलोकस्य बलि रामोऽभिषिच्यताम् परिवादो हि देवी महान् लोके चरिष्यति यदि रामो वरं विहाय पितरम् नृपम् स्वराज्यम् राघवत् पातु भव त्वम् विगतज्वर नहि ते राघवादन्य ीरवराजस्थे राजा दश रथो वनं प्रवेक्षति महे श्वास पूर्ववृत्तम् अनुस्मरन् इति शान्त्रै च तीक्ष्णे च कैकेयीं राजसंसदि भूयो संशोभयामास सुमन्त्रस्तु सु कृताञ्जलिः नैव सा क्षुभ्यते दे देवी न च स्म लक्षते विक्रिया तदा इत्या श्रीमद् रामायणे वाल्मीकि अधिकारि विद्याकाण्डे पञ्च त्रिंश सर्गता रामचन्द्रार्पणमस्तु